ॐ नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे दृढधनवोपाख्याने सुदेव विलापो नाम सप्तदशोऽध्यायः वाल्मीकिरुवाच इति ताः शीतलावाचः समाकर्ण्यप्रियामुखात् सुदेवो धैर्यमालम्ब्य हरौ चित्तमधारयत् निश्वस्य दीनवदनु यद्भाव्यं तद्भविष्यति इति निश्चित्य मनसा पुष्पाद्यर्थं वनं ययौ एवं कृतपतस्तस्य कियान् कालोगतक्रमात् समित्कुशफलाद्यर्थं कदाचित्काननं ययौ सुदेवो मनसा ध्यायन् हरेः तस्मिन्नेव दिने गच्छद् वापीं सोनुः सुहृद्व्रतः प्रविश्य वापीं चिक्रीडे वयस्यैः सह वारिणि जलयन्त्रैः क्षिपन् बालकेषु स्मयन् मुहुः जले क्रीडां मुहुः कुर्वन् ग्रीष्मे मोदमुपायजौ एवं सर्वेषु बालेषु क्रीडत् सुप्रेमनिर्भरम् अगाधसलिले तिष्ठन् बालकैरुपमर्दितः सफलायनमन्विच्छन् सुहृदवर्गभयाद्रुतं विधिना नोदितस्तत्र नियम्यश्वासमात्मनः मम जागाधतोऽसौ वञ्चयन्नात्मनः सखीन् तत्रापि व्याकुलीभूय ततो निर्गन्तुमुन्मनाः सहसा कुमारोगाधवारिणी जलादनिर्गतं वीक्ष्य सर्वे च समानवयससर्वे समानवयसः हाहा कृत्वा प्रधाविता गौतम्यै कथया मासुर बृहच्छोकपरायणाः वज्रपातसमां वाचं बालानामनतिप्रियां श्रुत्वा भूमौपपातासु गौतमे पुत्रवत्सलम् एतस्मिन्नेव समये वनाद् विप्रसमायौ निशम्य पुत्रमरणं वा तदुत्थायतौ विप्र दम्पती वापिकाङ्गतौ मृतं पुत्रं समालिङ्ग्य स्वाङ्के कृत्वा कलेवरं सुदेवः पुत्रवदनं चुचुम्बचा मुहुर्मुहुः ततः स्वाङ्के स्थितं पुत्रं मृतं वीक्षन् मुहुर्मुहु सरुदन् विलपन्येवरमूचिवान् सुदेव उवाच वद पुत्रशुभां वाणीं मम शोकविनाशिनीं शीतलां ललितां वत्स मनसो मोदमावह य पितरौ वृद्धौ न त्वं गन्तुमिहार्हसि वत्साह्वयति ते मित्रं वेदाध्ययन हेतवे मुदाह्वयत्युपाध्यायमध्यापनहेतवे पूर्णमुत्तिष्ठ हे, हे, हे पुत्र कथं सुप्तोऽसि साम्प्रतम् त्वां विहाय न गच्छामि गृहे किं प्रयोजनम् शून्यारण्यविवाद्य त्वदृते सदनं मम वनेऽपि नैव गच्छामि गमने किं प्रयोजनं ममाग्रतः न मया चरितं गर्ह्यं ब्रह्महत्यापि नो कृतां केन कर्मविपाकेन पुत्रो मे निधनं गतः अहो धातः किमेतावत् लब्धं त्वयामत् लोचनं मम दीनस्य वृद्धस्याकृष्य निर्दय निर्धनस्य धनं बालं हरतस्ते कथं लज्जा जायते न हि कुत्रचित् सर्वत्र सदयस्त्वं वै मयि निर्दयताङ्गतः कथमित्यन्यथा भावो मम भाग्यवशादु हं शोधयाम्यद्य पुत्रं प्रकृतिसुन्दरं द्रक्षे तवाननं कुत्र पुत्रचारु सुलोचनं पर्जन्यस्रवते वारि सुते धान्यं वसुन्धरां गिरयो रत्नजातानि मुक्तासारं पयोनिधि नतं देशं प्रपश्यामि यत्र पुत्रं मृतं लभेत् यद्गात्रं तु समालिङ्ग्य हृद्गतं तापमुत्सृजेत् हे वत्स त्वं सकृदवाचं श्रावयाशुदयां कुरु विलपत्यति ते माता कुरेव गतत्रपं तां दृष्ट्वा तु कथं पुत्र दया नोत्पद्यते तव अननुज्ञाप्यपितरौ न कदापि भवान् गतः आवामपृष्ट्वा किं दीर्घ मार्गं त्वं गतवानसि वेदाध्ययनसद्वाणीं कस्य श्रोष्यामि साम्प्रतम् त्वामनुस्मरतो वत्स कलवाक्यं मनोहरं शतधादीर्यते नोद्य ह्यायसंहृदयं मम मन्ये सुधन्यं किल कौशलेन्द्रं यः दाशरथौ प्रयाति दधारणोऽसोऽन् सुततापदग्धो धिङ्मां सुतस्य प्रलयेप्यनष्टं गोविन्दविष्णो गो यदुनाथनाथ श्रीरुक्मिणि प्राणपते बुरारे दीनानुकम्पिन् भगवन् दयालु मां पाहि पुत्रा नलतापतप्तम् देवाधिदेवाखिलोकनाथ गोपालगोपीशरथाङ्गपाणि कलिन्दकन्या विषदोषहारिन् मां पाहि पुत्रा नलतापतप्तं वैकुण्ठ विष्णो नरकासुरारे चराचराधारभवाब्धिपोत ब्रह्मादिदेवानतपादपीठ मां पाहि पुत्रा नलतापतप्तं शठो मदन्यो भविता न कोऽपि यो देवकेसूनुवचो विलङ्घ्य पुत्रे दुराशां कृतवानभाग्य लभेत को दृष्टविनष्टवस्तु इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे दृढधन्वोपाख्याने सुदेवविलापो नाम सप्तदशोऽध्याय श्रीपुरुषोत्तमा अर्पणमस्तु